ृतवस् oh. मधुरम् oh. yeah. yeah, yeah, <laughs> <laughs> Sankit na ala pini Shama aangim madh sikta shukta Amradan raat ka nishwari Shama aangim madh sikta shukta Shama aangim madh sikta shukta ृणूनां त्वा गणपतिगुम् भवामये कवीम् कवीनाम् त्वमश्रवस्तमम् श्री श्रेष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतपान शृण्वन्नुक्तिभिसीदसागनम् ॐ श्रीमहागणपतये नमः टुस् होल्टिङ्ग् विस्ट् टु टैट् टुगेदर्डि रेडि ओके वन् टु त्रि ॐ धूमिर्भु सोम्नाद्यौ परिणान्तर्क्षं मयित्वा उपश्रे अग्निमन्नादमन् आयादेव आयाङ्गौ पृष्टिरीतनातरं परमः विराजति प्रत्यन्तः अस्य पठ्यप्राणादपानस्य रति रोचना यज्ञः वा क्रुद्धपमनुनायगवर्या सुकल्पमग्निमग्ने सी प्रदीपयामसिम् देवावसवश्चके वन् मोर् टैम् रेडि वन् टू त्री ॐ ॐ उपस्थे दिव्यदितेग्निमन्नादमन्नाध्यायातते आयङ्गौः प्रायङ्गौ पृष्णिरक्रमेतनकरम् पुनः पितरञ्च प्रयन्तु वः सशस्ताम विराजति वा सङ्गाय श्री प्रत्यस्य जुभिःभिः अस्य प्राणादनन्तरञ्च न दि व्यख्यन्वहिषन्तु वः वः यद्वाद परोदभ्या सुकल्पल्पमतमे सप्त पुनस्वयामसि यद्यपरोस्तते लास्ट् टै सो हु वार् गो ओके ओम् ूमिर्भोम्नाद्यौर्वरिणान्तरिक्षं महित्वा उपस्ते देव्यदितेऽग्निमन्नादमन्नाद्यायादते आयङ्गौ पृष्णिरक्रमीदशनन्मातरं पुनः पितरं च प्रयन्सु वः तृगुं शब्दाम विराजति वाक्पधङ्गायशिश्रिये प्रत्यस्य वहद्युभिः वा, अस्य प्राणादपानत्यन्तश्चरति रोचणा व्यक्यन् वः यत्त्वा आ क्रुद्धः परोवपमन्युना यदवत्या सुकल्पमग्ने तत्तव पुनस्वोदिपयामसि यत्ते मन्युपरोक्तस्य पृथुवि मनु तत्त्वसे आदित्याय विश्वे तद् ुड् आदित्य ओके लास् ओके आदि आदित्य हदित्य आदित्या विश्वे विश्वे ओके आदित्या विश्वे तद्देवा बसवश्च समाभरण yeah very good very well done. Okay, thank you. Who wants to go next? I can try. Okay. Om Bhoomet Bhoomna Tyaorvayana. Bhoomna, okay make sure that the O is Dirga. Bhoomir Bhoomna, okay? Bhoomet Bhoomna. ौर्वरिणरिं महित्वा उपस्तेमन्नादमन्याद्यायादथे आयङ्गौ स्वमिरक्मीदनन्मादरं पुनः पितरं च प्रयं सुः श्रद्धाम विराजति वाक्पगङ्गाय शिश्रिये प्रत्यस्य वहस्युतिः अस्य प्राणादपानत्यन्तश्चरति अस्य प्राणादपानात्यन्त्यन्तश्चरति रोचना न्युनाय न वक्त्या सुकल्पमग्ने तत्तव पुनस्तो दीपयामस्ति दीपयामसि यत् पृथिवी मनुथत्वसे आदित्या विश्वेतद्देवा वसेव दकारा ओके आदित्या विश्वेतद्धेवा आदित्या विश्वेत डबुल् दकारा वेल्कम् ॐ भूमिर्भूम्ना दौर्वरि वरिणान्दरीक्षं महित्वा उपस्ते देव्यदिते निमन्नादमन्नाद्यायाददे आयङ्गौ पृश्नीरक्रमिस्तनम् मादरम् पुनः पितरम् च प्रयन्सुवः त्रिगुंसद्दामविराजदि वाक्पदङ्गायसि श्रिये प्रत्युभिः अस्य प्राणादपानाद्यन्तश्चरतिरोचना व्यक्षन् यद् परोमवपन्युना यत यदवर्त्या सुकल्पमग्ने तत्तव पुनश्चोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीसे आदित्या विश्वे तदेव ॐ okay. भूमिर्भूम् ना घ्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदिते अग्निमन्नादमन्नाध्यायादधे दे आयङ्गौ पृष्णिरक्रमे दसनन्मातरम् पुनः वितरम् च प्रयन्सुवः त्रिगुंशद्धाम विराजति वाक्पतङ्गायशिश्रिये प्रत्यस्य वहध्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचना व्यक्षन् महिषः शुभः जत्वा आकृतः ुनाय सुकल्पमग्ने तत्तव पुनत्वोद्दीपयामसि यत्ते पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवासवश्च समाभरन् न् गोहिरि ओके ॐ भूमिर्भूम्याद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यतितेग्निमन्नादमन्नाद्याय दधेद मन्नाद्यायया मन्नाद्यायादथेरक्रमेदशनन्मातरम् पुनः पितरं पुनह प्रयन्सु वः त्रिगुंशत् मविराजदि वाक्पदङ्गायश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्दरश्चति रोचना अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिष सु वः यत्त्वा यत्त्वा अक्रुतः परो वपमन्युना यतवर्त्या सुकल्पमग्ने तत् पुनस्तो दीपयामसि यत्ते मन्युपरोत्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवावसवश्च समाभरन् ॐ भूमिर्भूम्नात्योर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे आयङ्गीरप्रमीदसनन्मातरं पुनः पितरं च प्रयन्सु वः त्रिगुं श्रद्धामभिलाजति वाक्पतङ्गायशिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानन्त्यन्तश्चरितिरोचनां व्यक्षन् महिष सुवः यत्त्वा आ क्रुद्धः परोवपमन्युना यद्वर्त्या सुकल्पमग्ने तत्तव पुनस्तव पुनस्त्वो दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् that go a little bit slower what happens is you know, i have the same problem because i can read it faster i tend to, to go faster which is not good for chanting so, go, so the thing is you can read devanagari pretty fast so we tend to go a little bit faster than necessary okay so we have to uh, slow down a little bit <laughs> i have to okay. <laughs> okay so if you go slow in in, in the when you are learning it, it's easier you get it correctly and then it will stick in your mind as is okay so try that you want to we can read faster go slower good okay. thank you who wants to try next are you blurden did you practice or you just uh, tend do get a chance no i i did practice yes so okay, you want to try sure ॐ भूमेर्भूम् ना ज्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते आयंगो आयङ्गो आयङ्गौ प्रश्निप्रश्निरक्रमी दस्तनन्मातरम् पुनः पितरम् च प्रयुन् प्रयन्सुवः तृगंषद्धामविराजतिवाक्पतङ्गाय शिश्रिये प्रत्यस्य वः द्युभिः अस्य प्राणादपान प्राणादपा श्चरति रोचना व्यख्यन्महिष सुवः यत्त्वा क्रुद्धुना यदवर्त्या सुकल्पमग्ने तत्तवन् क्वश्चन ऐ हेड् सिन्स् दिस् is it punastvod deepayamasi or no no punastvod deepayamasi double d with the e right so deepayamasi uh -huh. with double da ghara okay it is not punastvod deepayamasi it is punastvod deepayamasi okay, you don't okay. have to split there punastvod okay. deepayamada the double da ghara will be there that's all and is it that mahapranadhar no no it is right? alp pranada it is okay. the middle da पुनस्तो मन्यु महाप्राणासि तस्य तद्देवा वसवस्य ओके सो लेट् लर् दि नेक्स्ट् पार्ट् न्दरा स्याद्वसुधा देवी वासवी वसुधा देवी देवी वासवी वासवी वसुधा इस् मेदिनी देवि वसुन्धरा स्याद् वसुधा देवी वासवी ओके क्वस् वर्ड् ट्रै दोल्ड् लैन् वन्स् ओके दन् मेधि वसुन्धरा स्याद् वसुधा देवी वासवी देवि वसुन्धरा वसुदा देवी वासवी मेदिनी देवी वसुन्दरा वसुदा देवी वासवीके पडि ओके ब्रह्मवर्चसः ोत्रम् पितृ नाग श्रो श्रो चक्षुर्मणः चक्षुर्मः ओके गुड् सर् ओके ब्रह्म वर्षस पितृनागश्रोत्रं चक्षुर्मनः ब्रह्म वर्चस पितृण श्रोत्रं चक्षुर्मनः ओके क्वस् पितृनाग और पितृनाग् पितृनाग श्रोत्रं पितृनाग पितृनाग ओके Any other eh? Okay. क्वशन् ओके नेक्स्ट् Devi देवी हिरण्यगर्भि हिरण्यगर्भि देवी हिरण्यगर्भि देवी प्रसूवरी देवी हिरण्यगर्भिणी देवी देवी हिरण्यगर्भिणी देवी प्रसूवरे ओके नेक्स्ट् वन् सदने सत्यायने सीदा सदने सत्यायने सीदे सीद रा नो प्रोब्द्रवती सावित्री समुद्रवती साविवती सावि prive no devi makhyangi no devi makhyangi no devi makhyangi no okay that's done yeah yeah okay so that is i'll do the from beginning till here ्रह्म वर्चसृणाग श्रोत्रं चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीदा समुद्रवती सावित्री हनो देवी मह्यङ्गी मेदिनी देववी देवी वसुन्दरा सुदा देवी वासवीवि वासवी ्रह्म वर्चस कृनः देवी हिरण्यगर्षी सदने तदने सुदने सत्या ी नो देवी पश्यन्तीवीदिनी मेदिनी देवी सुन्दरा सुन्दराह्यासिदाी वासवी सर्वे सत्य ओके सो हु वो फस्ट विल् ट्रै ओके मेदिनी देवि वसुन्धरा स्या, वसुधा देवि वासरी ब्रह्मवर्चसः पितृनाक्षोत्रं चक्षुर्मनः पितृना ोत्रम् चक्षुर्मणः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीद समुद्रवती सावित्रीत्रीः मुद्रवती सावित्री समुद्रवती सावित्री ओके समुद्रवती सावित्रीः नो देवी समुद्रवती सावित्री ह नो देवी मह्यङ्गी who is next i can go next fairy okay go ahead me dinī devī vasundarā svādva sudā devī no, vāstavī please give me one more second syād vasundhara vasudhā devī okay vasundharād syād vasudhā twa vas okay me dinī devī vasundarā स्वाद्वसुधा देवी वासवी ब्रह्मवर्तु ओके स्वाध्वसुधा देवी स्याद्य सुधा देवी चक्षुर्मनः श्रोदेवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीता समुद्रवदी सावित्री हनो देवी मह्यङ्गीक्स् मेदिनी देवी वसुन्धरास्य वसुधा देवी वसुन्धरासुधा देवीसुधा वसुधा स्याद् वसुधा स्याद् वसुधा ोत्रम् िरण्यगर्भि सदने सत्यायने सीता समुद्री हनो देवी मह्यं मेदिनी देवी वसुन्धरास्या देवी वासवी ए ब्रह्मवर्षसः पितृनागश्रोत्रं चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरे सदने समुद्रवती सावित्री हनो देही मह्यङ्गी एस्ट् ऐ के हरि ओके मेतिनी देवी वसुन्धरासुधा देवी वासवी ब्रह्मवर्चसपितृनागं श्रोत्रं चक्षुर्मनः ब्रह्मवर्चसपितृनाग पितृनाग् पितृनाग रां नागुर्मोत्रं चक्षुर्मनः देवी हिरण्य हिरण्यगर्भिणी देवी प्रसुवरि सदने स ीद समुद्रवती सावित्री हनो देवी मह्यङ्गीक्स्ट् ओके ेतिनी देवी वसुन्धरा देवी वासवी जमवर्चस्वपितृणागश्रोत्रं चक्षुमनः देवी हिरण्यगर्भिणी देवी प्रसुवरी सदने सत्यायनेसिद ी हनो देवी समुद्रवती सावित्री हनो दे ओके समुद्रवती समुद्रवती दीर्घ इकार and same there, uh, the the the surga before the pakara will get exum right badmaniya brahmavarcha sahpedranaga okay you okay. go okay good who is next i can go hari <coughs> okay मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पृतृणागश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायनेसीद समुद्रवती सावि ीरि ओके लर्ण नेक्स्ट् धरणि महो व्यथिष्टा महीधरणी महो व्यथिष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी शृङ्गे श्रृङ्गे यज्ञे यज्ञे विभीषिणी शृङ्गे श्रृङ्गे यज्ञे यज्ञे विभीषिणी धे no problems in any words maho vyatishtha maho vyatishtha da bodh tha and tha ar mahapranam okay. okay maho vyatishtha vyatishtha okay the niyeti ngal okay let's take the whole sentence महीधरणि महो व्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणे महीधरणि महोव्यधिष्ठा यज्ञाङ्गे यज्ञे यज्ञे विभीषिणी ओके प्राब्लम् ओके ह नेक्स्ट् पाण्ट् इन्द्रपत् ्यापिनी इन्द्रपतिनी इन्द्रपद्रपनी व्यापिनि सुरसरिदिहा सुरसरि any problem with the words yeah no no okay indra patni vyapini sura saridih indra patni vyapini sura saridih indra patni vyapini sura saridih okay वायुमती जलशयनी वायु वायुमती जलशयनियनी वायु वायुमती जल जलशयनी श्रियं धा राजा श्रियं सत्यन्धो परिमे परिमे सत्यमेके वायुमती जलशयनी श्रियम् धाराजा सत्यन्धो परिमेदिनी वायुमती जलशलशयनी श्रियम् धारात्युन्धो परिमेदि परिमेदिनी ती जलशयेन्द्रियन् स्वयं न राजा Oh, sorry, I was on mute, okay, I don't know why, so, sorry. Yeah, okay. okay. What else, just thinking, I so was just thinking, what else? I thought my phone okay. was off. Okay. I was you, concerned if you were okay, suddenly. Okay? I'm thinking, I don't know, nobody's thinking, okay, that's my problem, okay, <laughs> okay. Okay, <laughs> all right, so, uh, let's go on slowly. <laughs> oh, Paribhattam, oh, Paribhattam, oh, Paribhattam, य श्वो परिधत्तं परिगाय श्वोरिधत्तं परिगाय परिगाय श्वोरिधत्त parigaya parigaya so no problem there to right okay so let's try the second part and say the whole thing from second part मही महीधरणि महोव्यथिष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमती जलशयनि श्रियम् धाराजा परिमेदिनी ोपरिधत्तम् परिगाय महीधरणितोे यज्ञे विभीषिणी विभीषिणी इन्द्रपत्नीव्याप्यापी रसरिसरिदिह युमती जलशयशी श्रियं स्वादिपरिगाय मही धरणी महीधरणि धरं यथस्मा गिरेष्णेषय विवेशिनीषिणी इन्द्रप्यापिसुरकिः राजा परि गाय सु हलो हरि महीधरणि महोव्यथेष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिह वायुमती जलशयनी श्रियं धाराजा सत्यं सत्यन्धोपरिमेदिनी श्वोरिधत्तं महो व्यतिष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरी दिह वाय। वायुमती जलशयनी श्रियं दाराजा सत्यन्दो ोपरिदत्तम् ऐ केन् गो नेक्सरि महीधरणि महो व्यदिष्ठा श्रृङ्गे श्रृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमति जल जलशयनि श्रियन्दा राजा सत्यन्दोरिगाया सि इस् नाट् इन् दिङ्ग् ओके या ओके कट्डन् प्रि औट् सह महीधरणि महो व्यथिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्र व्यापिनी सुरसरिदिहा वायुमती जलशयिनी श्रियं धाराजा सत्यन्धोपरिमेदिनी श्वोत्तं ी विभीषिणी इषिणी नोट् शाट् रिटर् शा इरे ङ्गे यज्ञे यज्ञे विभीषणिः इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमती जलशयनी श्रियं तारज सन्ध्यो राजा श्रीरास्हो व्यधि शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणीः भीषणि विभीषणि इन्द्रपत्नी व्यापिनि सुरसरितिः वायुमति जलशयिनि श्रियन्धा राजा सत्यन्धोपरिमेतिनि चोपरि परिधत्त परिगाय <laughs> शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणि ईन्द्रपत्नी व्यापिनी सुरसरिधिः आयुमती जलशयिनि श्रियं धाराजा सत्यं धोपरिमेदिनी श्वोपरिधतं परिगाय nobody else everybody done right let's miss anybody okay so let's uh, uh, um, do the second paragraph twice and then uh, we'll practice next week there's only two more lines in this okay so it will be pretty easy to um, practice and finish next week maybe we'll start something new maybe villas of the lords of the rings But in the Mantra Prashvam it is, the next page also there is something. Yeah, we don't, actually the thing is in most, some of the other people's book, it just only goes till Dhanuddharay vidmahe sarva siddhya chadeemahe tanno dhara prajodaya adha. Okay, that's where it stops. They don't have oh. a, the mahin deya, vishnu batni, marjuri, etc. So, we can only okay. do that and then we do shanti shanti shanti, okay? okay? That's why the second page, in your 408 page is only one, uh, two sentences that we will do. um oh, okay okay so okay so let us repeat this two times together in the second bag of starting with medini til parigaya okay okay ready okay 1 2 3 medini medini devi, devi vasundhara Raya, rayanti Raya, vasudhati Raya, ई ब्रह्म नवरत्य च सुरो नमश्चैव श्रवणं त्रैचरिणामः देवी वीर जगदगिरि देवी इनसु रघुराई सदने सदायाय अमुद्रवीकारी हरिहरी जङ्गी मही हरहरणि महोयके विभीषिणी वायु वायुलय परिमे श्वो परिहत परिगाय वर्त टैम वन टू थ्री मेदिनी सुन्धरात्या ब्रह्म ब्रह्म परा च सृ धृण गजोत्रं न चषुनः देवी रङ्गिरखर्गिले देवी गुरसरोवरी सदने दने सेन्द्रिया मुद्रवद्रमती कारित्रीदेवी पे महीर्हो व्यथता यज्ञे विभीषणी महिन्द्रम्यायुव्यापि मृगरु वायुमवायुमतिलै दर्शयुषो भो परिमेदिनी श्वो परो परिधृपरि गरि गाय करोके So next week we will practice this and then finish the other one and we can practice the whole thing together. Maybe it's a, it's a chance we can also finish Neela Suktam next week. Neela Suktam is pretty small. What Suktam, Hari? I didn't get it. Neela Suktam. Ne Neela, okay. Ne ne Neela, Neela. Oh, Neela Suktam, okay. If you don't get it, let me know, okay? It's pretty okay. small, like in Taiput and Sanditya. Okay. we stored this for today sala the alardo probably uh, text you so that they can look for it also okay okay so let's do tri lokah samasta and stop for the day om lokah samasta bhagavanto lokah samasta bhagavanto ोकालोकाहताहनो भवन्म ॐ शान्तिः शाधिः शान्तिः ॐ श्रीगुरुगुरुभिः